तस्मा अरङ्गमामवो यस्य क्षयािन्वथ आपोड्यन यथा चना तस्मा अरङ्ग मामवो यस्य क्षयाय जिन्वथ आपोयन यथा च तस्मा अरङ्गमामवो यस्य क्षयाय